मुद्गलपुराण खंडम एट धूम्रवर्णचरम अध्याटी एट जरत्कारुयोगप्रातिवर्णनम श्रीगणेशा नम जरत्ुवाच ब्रह्म ना वेदेशु प्रोक् वेदवादि अन्न प्राणादिभेद संयुक्तं क्रमसिद्धये मनोमयं ब्रह्म तेषु नमुख्यं कोशप्रकाशकं न मुख्यं तन्महाभागसूक्ष्मं स्वप्नविकारजं मनो बुद्धिरहङ्कारश्चित्तं चतुर्विधं परम् अन्धःकरणमित्युक्तम् शास्त्रेषु मुनिशतमैः चित्तमत्र समाख्यातम् तत्र चिन्तामणिस्थितः चित्तप्रकाशकत्वाद्वै मनो ब्रह्मकलात्मकः प्राणो मनश्च विज्ञानम् त्रिविधम् स्वप्नमुच्यते देशतः सोऽपि ब्रह्मकारो गजाननः कथं शान्तिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिं वेदेषु कथितं विप्र कथं तन्नैव बुध्यते कौण्डिन्य उवाच सम्यक्पृष्ठं त्वया विप्र सर्वेषां हितकारकम् कथयामि महाप्रीत्या प्रणम्य गणनायकम् साङ्ख्ययोगादिभेदस्ताैर्मार्गा नानाविधा स्मृताः पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः अन्नप्राणादिका शब्दाब्रह्मणो वाचकामदाः तत्र चित्तं समाख्यातमन्धःकरणगं परम् एकभागाश्रितं चित्तं मनोब्रह्मणि संस्थितं पदार्थशोधनाख्येतद्विधौ जानीहि मानद कुत्र वेदविवादेषु मनःसः परमामता बुद्धिस्तस्याः परं ब्रह्म शान्तितं सर्वसम्मतम् अन्धःकरणगा बुद्धिरेकदेशप्रभावदः न मुख्या समाख्यादा तद्वच्चित्तं मदं अत्राण्यं अत्रान्यं बोधदं मार्गं वदामि वेदगम् परं समाहिदमना विप्रशृणु संशयनाशनं देहक्रियात्मकः प्रोक्तो मनो बोधात्मकं मदं तयोर्योगे स्वयं गणेशोपासनेनैव द्वन्द्वदुःखहरा ब्रह्मा बुद्धि भवेद ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमदां परा ततः परं स्वयं लीना जायते गणपे परे तदा शान्तियुतो जन्तुर्ब्रह्मभूतो अहं गणेशरूपश्चेत्तदा तदामे देहजो भ्रमः कुत्र मनोमयो मनोमयोमोहो विवेकदायकः परः तयोर्योगे योगमह्यकुत्र मे सम्भवेद्भ्रमः द्वन्द्व भावयुधसोऽपि द्वन्द्वसंवर्जितस्मृतः एवं ज्ञात्वा महायोगी शान्तिं संलभते परां गणेशे गणनाधोऽयं भवते मुनिसत्तम अनेन विधिना विद्धिचित्तं बुद्धिमयं परं तत्र चिन्तामणिं ज्ञात्वा ब्रह्म भूतो नरो भवद अन्यच्च शृणु विप्रेष मनो विवेकधारकम् विवेकादभिमानश्चोत्पद्यते विविधेषु वै अदो बुधैरहङ्कारो मनोमय उदाहृतः कथितं वेदवादेशु मदा बुद्धिर्मनःपरा बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधा भवन्मुदा जडा देहे क्रियामूला चैतन्यदा मनोमयी वृद्विक्षयादिकं ज्ञानम् सदा देहे प्रतिष्ठितं तदेव बुद्धिजं विद्धिजरत्कारो सुयोगदः देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् बुद्धिजं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् तयो योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा ब्रह्माहमिति शब्दाख्या मनोवाणी विवर्जिता बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकं कथयाम्यधुना प्रीत्या सर्वसंशयनाशनम् चित्तं प्रकाशकं प्रोक्तं प्रकाश्यो बुद्धिगो मतः अधश्चिन्ता मणिप्रोक्तो बुद्धिशो गणनायकः चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूठं महामुने विक्षिप्तं मुनिभिर्मुख्याय रेखाग्रं च निरोधकम् देहदेहिमह्यं चित्तमेकाग्रं शास्त्रसम्मतं मनःस्वप्नमह्यं ब्रह्म देहरूपं विचारय अदो मनोमयं चित्तं मा जानीहि महत्परं प्रकाशकारकं चित्तं सर्वशास्त्रेषु सम्मतम् संयोगायोगगं चित्तं निरोधवाचकं मदं नानाब्रह्माणि चैकाग्र निरोधमयगानि तु देह देहि प्रकाशत्वादेकाग्रं चित्तमुच्यते संयोगायोगकाशत्वान्निरोधं चित्तमञ्चसा इति सर्वं समाख्यादं भजत्वं त्वं गणनायकं तेन योगीन्द्रवन्द्यो वै भविष्यसि सुशान्तिगः जरत्कारुरुवाच यवमुक्त्वा महायोगी कौण्डिन्यो विररामः जरत्कारु प्रणम्यैवागमं तं हर्षसंयुधः साधयित्वा महायोगं गणपत्यो भवं सुद गणनाथं त्वमपि तं भज शान्त्यर्थमादराद सुत उवाच यवमुक्त्वा महायोगी जरत्कारुर्महामुने विरराम पुनस्तं चास्तीक ऊजे विशेषवित ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिदे जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्च चत्वारिंशोऽध्यायः ओम्